अथ त्रिसप्ततितमः सर्गः श्रुत्वा च स भ्रातरौ च विवासितौ भरतो दुःखसन्तप्त इदम् वचनमब्रवीत् किम् नु हतस्येह मम राज्येन शोचतः विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च दुःखे मे दुःखमकरोर्व्रणे राजेतस्थ् रामंपस कुलम भा का गंगारमुपू्य स्विता मेनावबुवान् मृत्युपादि राजया मे पापदर्शिनी सुखृत मोहात्ले कुल पंसनी स्वाम् प्राप्य हि पितामेऽद्यसत्यसन्धो महायशा तीव्रदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः विनाशितो महाराजः पिता मे धर्मवत्सलः कस्मात् प्रव्राजितो रामः कस्मादेव वनम् गतः कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम अन्वार्योऽपि च धर्मात्मा वृत्तिमनुत्तमा वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते तथा ज्येष्ठा मे माता कौसल्यादीर्घदर्शिनी त्वयि धर्मम् समास्थाय भगिन्यामिव वर्तते तस्याः पुत्रम् महात्मानम् चीरवल्कलवाससम् प्रस्थाप्यवनवासाय कथम् पापेन शोचसे अपापदर्शिनम् शूरम् कृतात्मानम् यशस्विनम् प्रव्राज्यचीरवसनम् किम् न पश्यसि कारणम् लुब्धाया विदितो मन्ये न यथा तथा ह्यनर्थो त्वया नीतो महानयम् अहमशव्याघ्र वश्यन राम लक्ष्मण कह शक्ति प्रभाव राज्यम रक्षि मुत्से तम हि नि महाराज बलव महौजस उपाश्रिभर्मात्मा मेरुर्मेरवनम था सोहम कथ महाधुस्यत दम्योधुरिसा सहेय कौजसा अथवा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा स कामान्न करिष्यामि त्वामहम् पुत्रगर्धिनी नमे मे विकाङ्क्षा जायेतत् त्यक्तुम् त्वाम् पापनिश्चयाम् यदि रामस्य नापेक्षा त्वयिस्यान्मातृवत्सदा उत्पन्ना तु कथम् बुद्ध्यस्तवेयम् पापदर्शिनी साधुचारित्र विभ्रष्टे पूर्वेषा नो विगर्हिता अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः न हि मन्ये नृशंसे त्वम् राजधर्ममवेक्षसे गतिम् वा विजानासि शाश्वती सततम् राजपुत्रेषु ज्येष्ठो राजाभिषिच्यते राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः तेषाम् धर्मैकरक्षाणाम् कुलचारित्रशोभिनाम् अद्यचारित्रशौटीर्यम् त्वाम् प्राप्य विनिवर्तितम् तवापि सुमहाभागे जनेन्द्रकुलपूर्वके बुद्धिमोहः कथमयम् सम्भूतस्त्वयि गर्हितः न तु कामम् करिष्यामि तवाहम् पापनिश्चये यया व्यसनमारब्धम् जीवितान्तकरम् मम एषत्विदानीमेवाहमप्रियार्थम् तवानघम् निवर्तयिष्यामि वना भ्रातरम् स्वजनप्रियम् निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजसः दासभूतोपविष्यामि सुस्थितेनान्तरात्मना इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तु दंस्ताम् शोकार्दितश्चापि न नादभूयः सिंहो यथा मन्दर इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिसप्ततितमः